गणां त्वा गणपतिगुम्भवामहे कविं कवीरामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनशृण्वन्भिः सीदसादनम् ॐ महागणाधिपतये नमः महन्यासपारायणम् हरिः ओम् अधातः पञ्चाङ्गरुद्राणाम् ओङ्कारमन्त्रसंयुक्तम् नित्यम् ध्यायन्ति योगिनः कामदम् मोक्षतं तस्मै नकाराय नमो नमः नमस्ते देवदेवेश नमस्ते परमेश्वर नमस्ते वृषभारूढ नकाराय नमो नमः ॐ नमो भगवते रुद्राय ॐ भूर्भुवस्तुः ॐ नं नमस्ते रुद्रमञ्जव उतोतैषवे नमः नमस्तेऽस्तुधनुने बाहुभ्यामुदते नमः यातैषु शिवतमा शिवं बभूवते धनुः शिवाशरं या यातवतया नो रुद्रमृदया नमो भगवते रुद्राय ॐ नं पूर्वाङ्गरुद्राजनमः महातेवं महात्मानं महापातकनाशनं महापापहरं वन्दे मकाराय नमो नमः ॐ भूर्भुस्वः ॐ निधनपतये नमः निधनपतान्तिकाय नमः ऊर्ध्वा जनमः ऊर्ध्वलिङ्गाजनमः हिरण्याजनमः हिरण्यलिङ्गाजनमः सुवर्णाजनमः सुवर्णलिङ्गाजनमः दिव्याजनमः दिव्यलिङ्गाजनमः भवाजनमः भवलिङ्गाजनमः शर्वाजनमः शर्वलिङ्गाजनमः शिवाजनमः शिवलिङ्गाजनमः ज्वलाजनमः ज्वलिङ्गाजनमः आत्मा जनमः आत्मलिङ्गाजनमः परमाजनमः परमलिङ्गाजनमः एतत्सोमस्य सूर्यस्य सर्वलिङ्गलघुस्थापयति पाणिमन्त्रं पवित्रम् ॐ नमो भगवते रुद्राजा ॐ दक्षिणाङ्गरुद्राय नमः शिवं शांतं जगन्नाथं लोकानुग्रहकारणं शिवमेकं परं वन्दे शिकाराय नमो नमः ॐ भूर्भुवस्वः ॐ श्रिं अपैतु मृत्युरमृतं न आगन्वैव अभयं कृणोतु पर्णं वनस्पतेरिवाभिनश्यीयतां रजिश्रचतां नश्यचतिः ॐ नमो भगवते रुद्राजा ॐ श्रिं पश्चिमाङ्गरुद्राज नमः वासुके कण्ठभूषणम् वामे शक्तिधरं वन्दे बकाराजनमो नमः ओं भूर्भुवस्तुवः ॐ वान्धिरसि रुद्रो मा विशान्तकः तेनान्येनाप्यायस्वा नमो रुद्रायविष्णवे मृत्युर्मे पाहि ॐ नमो भगवते रुद्राय ॐ वाम् उत्तराङ्गरुद्राज नमः यत्र कुत्र स्थितम् देवम् सर्वम् व्यापिनमीश्वरम् यल्लिङ्गम् पूजये नित्यम् जकाराय नमो नमःर्भुस्वः ओं यम् यो रुद्रो अग्नौ यो अप्सुयवोषधीषु यो रुद्राविश्वापना विवेश तस्मै रुद्राजनमोऽस्तु ओम् नमो भगवते रुद्राय ॐ यम् ऊर्ध्वाङ्गरुद्राज नमः पञ्चमुखध्यानम् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रप्रचोदयाः तु संवर्ताग्नितटित्प्रदीप्तकनस्पर्धितेजो ताम्राधरं सुन्दरम् अर्थेन्दुद्युतिलोलिङ्गलजटाभारप्रबुद्धोरगं वन्दे सिधसुरा सुरेन्द्रनमितं पूर्वं ॐ नमो भगवते रुद्राजा ॐ नं पूर्वमुखा जन्म अघोरेभ्योऽघोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्य सर्वेभ्यो नमस्ते सुरुद्ररूपेभ्यः कालाभ्रभ्रमराञ्जनज्युतिनिधम् व्यावृत्तपिङ्गेक्षणम् कर्णोद्भासितभोगिमस्तकमणिप्रोत्कीर्णदंष्टाङ्कुरम् सर्वप्रोतकपालशुक्तिशकलम् व्याकीर्णसच्चेखरम् वन्दे दक्षिणमीश्वरस्य कुटिलभ्रूभ्रङ्गद्रम् ओम् नमो भगवते रुद्राजा ॐ दक्षिणमुखा जनमः सद्यो जातम् प्रवज्यामि सद्यो जाता जपेन मो नमः भवे भवेनाति भवे भव स्वमाम् भवोद्भवा जनमः प्रायेचलमिन्दुकुन्द धलम् गोक्षीरफेन प्रभम् भस्माभ्यक्तमलङ्गदेहदः ज्वालावळीलोचनम् ब्रह्मेन्द्रादिमरुद्गणैस्तुतिपदैरभ्यर्चितं योगिभिः वन्देहं सकलं कणलङ्करहितं स्थाणोर्मुखम् पश्चिमम् ॐ नमो भगवते रुद्राय ॐ शिं पश्चिममुखाय नमः वामदेवाय नमो ज्येष्ठाय न श्रेष्ठायनमो रुद्रा जनमकाला जनमकालविकरणा जनमो बलविकरणायनमो बला जनमो बलप्रमदनायनम सर्वभूतदमनायनमो मनोन्मना जनमः गौरं कुङ्कुमपङ्किलं सुतिलकं प्यापाण्डुगण्डस्थलं भ्रूविक्षेपकटाक्षवीक्षणलसत्संसक्तकर्णोत्फलम् नीलालकालङ्कृतम् वन्दे पूर्णशशाङ्कमण्डलनिभुं वक्त्रम् हरस्योत्तरम् ओम् नमो भगवते रुद्राय ॐ वाम् उत्तरमुखा च नमः ईशानस्सर्वविद्यानामीश्वर सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्म शिवो मे अस्तु सदा शिवोम् व्यक्ताव्यक्तगुणेतरं परतरं षट्त्रिंशतत्वात्मकम् तस्मादुत्तमतत्त्वमक्षरमिदं ध्येयं सदा योगिभिः ओङ्कारादि समस्तमन्त्रजनकम् सूक्ष्मादि सूक्ष्मं परं शान्तं पञ्चममीश्वरस्य वदनं खं व्याप्तितेजोमयम् ॐ नमो भगवते रुद्राया ॐ यम् ओर्ध्वमुखाय नमः पूर्वं पशुपतिः पातु दक्षिणे पातु विश्वेशो नीलकण्ठस्थोत्तरे ईशान्यां पातु मे शर्वो ह्याग्नेयां पार्वतीपतिः नैऋत्यां पातु मे रुद्रो वायुंव्यां नीललोहितः ऊर्ध्वे त्रिलोचनः पातु अधरायां एताभ्यो दशदिग्भ्यस्तु सर्वतः पातु रुद्रो रुद्रमर्चयेतु न्यासपूर्वकम् जपहोमार्चनाभिषेकं याख्यास्यामः या ते रुद्रशिवा तनूरघोरापापकाशिनि तया नस्तनुवाचन्त मया गिरिशन्ताभिचाकशीः शिखायै रमः अस्मिन् महत्यन्नवीं तर्क्षे भवाधि तेषागुंसहस्रजो जने वधन्मानि तन्मषि शरसे रमः सहस्राणि सहस्रशो ये रुद्राधिभूम्याम् तेषागुंसाश्रजो जने वधन्वानि तन्मसि ललाटा जनमः अर्तजा आद्रिजा बृहत् रृत् भ्रूवोर्मध्या जनमः त्रयम्बकम् यजामहे सुन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धना नृचोर्मुक्षी यवामृतात् नेत्राभ्यां नमः नमसृत्याय च पत्याय च नमः काट्याय च नीप्याय च नमसू्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च कर्णाभ्यां नमः मानस्तोकेतन ये मान आयुषमानो गोषुमानो अश्वे शुरीरिषः वीरान्मानो रुद्रभामितोर्हविष्पन्तो नमसा विधेमते नाशिकायै नमः अवतच्च तनुस्त्वगुंसहस्राक्षसिते षुधे निशील्याः सुमना भवतिकण्ठाः शर्वा अधः क्षमाचराः तेषागुं सहस्रजो जने वधन्वा निधन्मसि कण्ठा जनमः नीलग्रीवास्यतिकण्ठादिवगुं रुद्रा उपश्रिताः तेषागुंसहस्रजो जने वधन्वा निधन्मसि उपकण्ठा जनमः नमस्ते अस्वाजुधाजानातताय द्रष्टवेः उभाभ्यामुत ते नमो बाहुभ्याम् प्रवधन्वने बाहुभ्याम् नमः या ते हेतिर्मिरुष्टमहस्ते बभूव ते धनुः तयास्मान्विश्व परिणोरुद्रस्य हेतिर्मृणक्तुपरि त्वेषस्य दुर्मतिरघायोः अवस्थिरामगवद्भ्यस्तनुष्वमेभ्यस्तोकायतनयाय मृणया मणिबन्धाभ्याम् नमः ये तीर्थानि प्रचरन्ति सृकावन्तोनि शङ्किणः तेषागुंसहस्रजो जने वधन्वा नितन्मसि हस्ताभ्यां नमः सद्यो जातं प्रपद्यामि सद्यो जाता यमै नमो नमः भवे भवेरा भवे भव स्वां भवोद्भवा जनमः नमः वामदेवाजनमो ज्येष्ठा जनमो रुद्रा जनमक्काला जनमकलविकरणा जनमो बलविकर्णामोत अघोरेभ्यो अघोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्यः सर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः मध्यमाभ्यां नमः त्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रप्रचोदयात् अनामिकाभ्यां नमः ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽ शिवो ब्रह्मा मे अस्तु सदा शिवोम् कष्टिकाभ्यां नमः नमो वक्रिकेभ्यो देवानागं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वकेभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः हृदया जनमः नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमोऽपिरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमः पृष्ठा जनम न हस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः कक्षाभ्यां नमः न मोहिरण्यवाहवेशे नान्ये दिशाञ्चपतयेन मो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतयेन मो नमः पार्श्वाभ्यां नमः विर्यन्तनुःखपर्तिनो विशल्यो बाणवागुं हृदा अनेशन्नश्येषव आभुरस्य निषङ्गतिः राय नमः शरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् सदा धारपृथिवीं जामु मां कस्मै देवाय कविषाभिधे नाप नमः मेशुष्टमशिव तमशिवो सुमनाभवा परमे वृक्ष आयुधं निधाय कृत्तिम् वसार नमः ये भूतानामधिपतयो विशिखासःखपर्दिनः तेषागुं सहस्रजो जने वधन्वा नितर्मसि भूक्ष्या जनम ये अन्येषु विवृध्यते पात्रेषु जनान् तेषागुं सहस्रजो जने वधन्वा नि तर्मसि अण्डाभ्या नमः स शिरा जातवेदाः अक्षरं परमं पदं वेदा नागुंशिरसि माता आयुष्मन्तं करोतु माम् अपाना मानो महान्तमुतमानो अर्भकुमारभुक्षन्तमुतमानभुक्षितं मानो वधि पितरं मोत मातरं प्रियामारस्तन्वोरुद्ररीरिषः ऊरूभ्यां नमः एष ते रुद्रभागस्थं जुषस्वतेनावशेन परोमूयतोन्वापिनाकास्तकृतिवासाः जानुभ्यां नमः ृष्टचित् स्वमपाहुशन् बृहस्पते रक्षोहामित्रागुम् अपबाधमानः जङ्घाभ्या नमः विश्वम् भूतम् भुवनम् चित्रम् बहुधा जातम् जायमानम् च यत् सर्वोक्षेषरुद्रस्तस्मै रुद्राय नमो अस्तु गुल्भाभ्या नमः ये पथाम् पतिरक्षय अयरुदायः तेषागुंसहस्रजो जने वधन्वा नितन्मसि पादाभ्या नमः अध्यवोचदधिवक्ता प्रथमो दैव्याभिषग् अहीकृश्च सर्वान्य सर्वाश्च यातु धान्यः कवचायुः नमो बिल्मिने च कवचने श्रुताय च श्रुतसेनाय च उपकवचायुम् नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीठुषे आहोय अस्य सत्त्वालोकम् तेभ्यो करम् नमः तृतीयनेत्राय नमः प्रमुञ्च तन्मनस्त्वमुभयो रात्रियोर्याम् या शेह पराता भगवो वपा अस्त्राय फटु येतावन्तश्च भूयाश्च दिशो रुद्रावित स्थिरे तेषागुंसहस्रयो जने वदन्वा निधन्मसि इति ॐ नमो भगवते रुद्रायेति नमस्कारं यशेत् ॐ मूर्ध्रय नमः नं नमः ॐ नराटाय नमः भं नमः गं नमः वं हृदयाय नमः तें दक्षिणहस्ताय नमः रुं वामहस्ताय नमः त्राम्नाभ्यै नमः यं पादाभ्यां नमः सद्यो जातं प्रपज्यामि सद्यो जातायवै नमो नमः भवे भवेनाति भवे भव भवोद्भवाय नमः पादाभ्याम् नमः वामदेवायनमो ज्येष्ठा जनम श्रेष्ठा जनमो रुद्राजनमक्काला जनमक्कलविकर्णा जनमो बलविकर्णाजो बला जनमो बलप्रमथना जनमः सर्वभूततमना जनमो मनोन्मना जनमः ऊरुमध्यमाभ्याम् नमः अघोरेभ्योऽथोरेभ्यो घोरघोरतरेभ्यः गोर सर्वेभ्यः सर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः हृदयाय नमः य धीमहि तन्नो रुद्रप्रचोदयात् मुखाय नमः ईशानसर्वविद्यानामीश्वरस्य श्रीहंसगायत्रीमहामन्त्रस्य अव्यक्तपरब्रह्मऋषिः अनुष्ठुप्छन्दः परमहंसो देवता हंसां बीजं हंसीं शक्तिः हंसों कीलकं परमहंसप्रसादसिद्ध्यर्थे जपे वियोगः हंसाम् अङ्गुष्ठाभ्यां नमः हंसीं तर्जनीभ्यां नमः हंसों मध्यमाभ्यां नमः हंसैम् अनामिकाभ्यां नमः हंसौं कनिष्ठिकाभ्या नमः हंसः करतरकरपृष्ठाभ्या नमः हंसां हृदयाज नमः हंसीं शिरसे स्वाहा हंसूं शिखाय वषटु हंसैं कवचायुः हंसौ नेत्रत्रयाय वंशटु हंसः अस्त्राय भटु भूर्भुवस्वरोमिति दिग्बन्धः ध्यानम् गमागमस्तं गगनादिशून्यं चिद्रूपदीपं तिभिरापहारं पश्यामि ते सर्वजनान्तरस्थं नमामि हंसम् परमात्मरूपम् देहो देवालय प्रोक्तो जीवो देवः सनातनः त्यजेन यज्ञाननिर्माल्यम् सोऽहम्भावेन पूजयेतु हंस हंसः परमहंसः सोऽहम् हंसः सोऽहम् हंसः हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात् हंसेति यो ब्रूयात् धंसो नाम सदाशिवः एवम् न्यासविधिम् कृत्वा ततः सम्पुटमारभेतु अध सम्पुटीकरणम् इन्द्रादीन् दिक्षुविन्यस्य ॐ भूर्भुवस्वः ॐ त्राता रविन्द्रमविता रविन्द्रगुंहवे हवे सुहवंसो रविन्द्रं कुवेनुचक्रं पुरुहूतमिन्द्रगुः स्वस्तिनो मघवाधात्विन्द्रः ॐ नमो भगवते रुद्राजा ॐ पूर्वदिग्भागे इन्द्राजनमः ॐ भूर्भुवस्वः ॐ त्वं नो अग्ने वरुणस्य विद्वान्देवस्य हेडो वयासिष्ठाः ययिष्ठो वह्नितमस्व सुचारो विश्वा द्वेषागुंशिप्रमुख्यस्मत् ॐ नमो भगवते रुद्राय ॐ नम् आग्नेयदिग्भागे अग्नये नमः ॐ भूर्भुवस्वः ॐ सुगं नप्पंधामभयं कृणोतु यस्मिन्नक्षत्रे यमयेति राजाः यस्मिन्नेनमभ्यषिञ्चन्त देवाः तदस्य चित्रगुम्हविषा यजाम ओम् नमो भगवते रुद्राय ॐ ॐ दक्षिणदिग्भागे यमायनः यमा। ओम् भूर्भुवस्वः ओम् हम् अशुन्वन्तमय यमानमिच्छस्तेन सेत्याम् तस्करस्यान्वेषि अन्यमस्मदिच्छसात इत्या नमो देविनिर्रुते तुभ्यमस्तु ओम् नमो भगवते रुद्राय ॐ भं निरृतिदिग्भागे निरृतये नमः ॐ भूर्भुवस्वः ओं गं तत्त्वाया विब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः अहेडमानो वरुणेहं समानायुप्रमोषीः ॐ नमो भगवते रुद्राय ॐ गं पश्चिमदिग्भागे वरुणाय नमः ॐ भूर्भुवस्वः ॐ वं आनो नियुद्भिष्यति निभिरध्वरम् सहस्रणीभिरुपयाहि यज्ञं वायो अस्मिन् हविषिमादयस्व यूयम् पात स्वस्तिभिस्सदानः ॐ नमो भगवते रुद्राय ॐ वं वायुविग्भागे वायवे नमः ॐ फूर्भुवस्वः ॐ तें वयगुं सोमं प्रतेतवा मनस्तनुषुभिभ्रतः प्रजावन्तो असीमहि इन्द्राणी देवी सुभगासुपत्नीः ॐ नमो भगवते रुद्राय ॐ तें उत्तरदिग्भागे कुबेरा जनमः ॐ फोर्भुवस्वः ॐ तमीशानं जगतस्तस्तुषस्पतिं धियं जन्ममवशे होमहे वयं पूषानो यथा वेदसमसद्भृदे रक्षिता पायुरतब्धस्वस्थये ॐ नमो भगवते रुद्राजा ॐ रुं ईशान्यदिग्भागे ईशानाजनमः ॐ फोर्भुवस्वः ॐ त्रां अस्मे रुद्रा मेघना पर्वतासो वृत्रहत्ये परहूतो सजोषा यस्यंसते स्तुवते धायि वज्र इन्द्रज्येष्ठा अस्माम् अवन्तु देवाः ॐ नमो भगवते रुद्राया ॐ द्राम् ऊर्ध्वदिग्भागे आकाशाय नमः ॐ भूर्भुवस्वः ॐ यं श्योनापृथिविभवानुक्षरानिवेशनि यच्छानर्म सप्रथाः ॐ नमो भगवते रुद्राय ॐ यं अथो दिग्भागे पृथिवै नमः इति अधा सम्पुटीकरणम् अथ दशाङ्गरौद्रीकरणम् ओं भूर्भुवस्वः ॐ ॐ नम शम्भवे चमयो भवे च नम शङ्कराय चमयस्कराय च नमः शिवाय च शिवतराय च त्राता रमिन्द्रमभिता रमिन्द्रहवे हवे सुहभंसो रविन्द्रम् भूयेनुचक्रम् पुरुहूतमिन्द्र गुस्वस्तिनो मघवा धात्विन्द्रः ओं नमः शम्भवे चमयो भवे च नम शङ्कराय चमयस्कराय च नमः शिवाय च शिवतराय च ॐ ललाटस्थाने इन्द्राजनमः ॐ भूर्भवस्वः ॐ नम् ओम् नम शम्भवे च मयो भगे च नमः शङ्कराय चमयस्कराय च नमः शिवाय च शिवतराय च त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेडोवयासि सिष्ठाः यजिष्ठो वह्नितमस्वोऽसु जानोऽपि श्वाद्वेषागुंसि प्रमुख्यस्मत् ॐ नमः शंभवे च मयो भवे च नमः शङ्कराय चमयस्कराय च नमः शिवाय च शिवतराय च ॐ नम् नेत्रयोस्थाने अग्रये नमः ओम् भूर्भवस्वः ओम् ओम् ओम् नमः शम्भवे चमयो भवे च नमः शङ्कराय चमयस्कराय च नमः शिवाय च शिवतराय चन्धामभयम् कृणोतु यस्मिन्नक्षत्रे यमयेति राजाः यस्मिन्नेनमभ्यषिञ्चन्त देवाः तदश्च चित्रगुङ्घविषायजाम ओम् नम शम्भवे चमयो भवे जनम शङ्कराय चमयस्कराय च नमः शिवाय च शिवतराय च ओं ॐ कर्णयोस्थाने यमाचनमः ओं भूर्भवस्वः ओं भं ॐ नमः शम्भवे च मयो भवे जनम शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च अशुन्मन्तम यजमानमिच्छस्तेन सेत्याम् तस्करस्यान्वेषि अन्यमस्मदिच्छसातमो देवि निर्वृते तुभ्यमस्तु ओम् नमः शम्भवे च मयो भवे च नम शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॐ हमम् मुखस्थाने निर्वृतये नमः ॐ भूर्भुवस्वः ओङ्गम् ओ नमः शंभवे च मयो भगे च नम शङ्कराय चमयस्कराय च नम शिवाय च शिवतराय चत्वाया विब्रह्मणा वन्दमानस्तदाशा हस्ते यजमानो हविर्भिः अहेडमानो वरुणेहो समारायुप्रमोषीः ओम् नम शंभवे च मयो भवे च नम शङ्कराय च मयस्कराय च नम शिवाय च शिवतराय च ओङ्गम् बाह्वो स्थाने वरुणा जनम ओम् भूर्भवस्वः ओं वम् ओं नम शमगे चमयो भगे च नमः शङ्कराय चमयष्कराय च नमः शिवाय च शिवतराय च आनो नियद्भिः शतिनिभिरध्वरम् सहस्रणिभिरुपयाहि यज्ञम् वायो अस्मिन् हविषिमादयस्वा यूयम् पात स्वस्तिभिसारः ओम् नम शमगे चमयो भगे च नम शङ्कराय चमयष्कराय चिवाय च शिवतराय च ॐ नासिकास्थाने वायवे नमः ॐ भूर्भवस्तुमः ॐ तेम् ॐ नम श्रंभवे चमयो भगे च नमः शङ्कराय चमयस्कराय च नमः शिवाय च शिवतराय च भयगुं सोमम् व्रतेतवा मानस्तनुषुभिभ्रतः प्रजावन्तो असीमहि इन्द्राणी देवी सुभगा सुपत्नीः ॐ नमः श्रंभवे चमयो भगे च नमः शङ्कराय चमयस्कराय च नमः शिवाय च शिवतराय च ङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय चतुषस्पतिम् म् जिन्मसे हूमहे वयम् पूषानो यथा वेदसामसद्भृते रक्षिता पाजुरदप्तस्वस्तये ॐ नम शभवे चम यो भगे जनम शङ्कराय चमयस्कराय चनम शिवाय च शिवतराय च ॐ रुम् नाभिस्थाने ईशानाय नमः ॐ भूर्भवस्तुमः ओम् द्राम् ओम् नम शभे चमयो भगे च नम शङ्कराय चमयस्कराय च नम शिवाय च शिवतराय च अस्मे रुद्रा मेघना पर्वता सुवृत्रः चे परहूतो सजोषाः यस्यतेधाय वज्र इन्द्रज्येष्ठा अस्माम् अवन्तु देवाः ओम् नम शम्भवे जमयो भवे जनम शङ्कराय चमयस्कराय च नम शिवाय च शिवतराय च ओम् द्राम् मूर्ध्स्थाने आकाशा जनमः ओम् भूर्भवस्वः ओम् यम् ओं नमः शम्भवे जयो भवे जनम शङ्कराय चमयस्कराय च नम शिवाय च शिवतराय च शोला पृथि विभवा नृक्षरा निवेशनि यच्छानः शर्म सप्रथाः ओम् अथ षोडशाङ्गरुद्रीकरणम् ओम् भूर्भवस्वः ओम् नम शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ओम् अम् विभूरसि प्रवाहणोरौ द्रेणानिकेन पाहिमा अग्नेऽपि बृहि मा मामाहिंसीः मा ओम् नमो भगवते रुद्राय ओम् अम् शिखायै नमः ओम् भूर्भुवस्वः ओम् नम शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ओम् आम् वह्निरशिखम् यवाह नोरौ द्रेडानीकेन पाहिमाग्रेऽपि पृहि मा मा माहिंसीः ओम् नमो भगवते रुद्राय ओम् आं शिरसे नमः ओम् भूर्भुवस्वः ओम् नम शम्भवे च च नमः शङ्कराय च च नमः शिवाय च शिवतराय च ॐ यिं स्वात्रोऽसिप्रचेतारौद्रेणानीकेन पाहिमा अग्नेऽपि बृहि मा अग्ने मामाहिंसीः मा ओम् नमो भगवते रुद्राय ॐ यीं मूर्ध्रे नमः ॐ भूर्भुवस्वः ॐ नम शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॐ ईं तुथोषि विश्ववेदारौ द्रेणानिकेन पाहि माग्नेऽपि बृहि मा मामा मामाहिंसीः ॐ नमो भगवते रुद्राय ॐ ईं लललाटाय नमः ॐ भूर्भुवस्वः ॐ नमः शम्भवे चमयोभवे च नमः शङ्कराय चमयस्कराय च नमः शिवाय च शिवतराय च ॐ ुं उषिगसि कबीरौद्रेणानिकेन पाहि माग्नेऽपि मामाहिंसीः ओम् नमो भगवते रुद्राय ॐ नेत्राभ्यां नमः ॐ भूर्भवस्वः ओं नमः शम्भवे चमयो भवे च नम शङ्कराय चमयस्कराय च नमः शिवाय च शिवतराय च ॐ ऊँ अङ्गारिरसिपम्भारीरौद्रेणानिकेन पाहिमाग्नेऽपि अग्नेपि मा मामाहिंसीः मा ॐ नमो भगवते रुद्राय ॐ ऊं कर्णाभ्यान्नमः ॐ भूर्भुवस्वः ॐ नम शम्भवे च च नमः शङ्कराय च च नमः शिवाय च शिवतराय च ॐ अरुम् अवश्युरसिधुवस्वानौ द्रैणानीकेन पाहिमाग्नेऽपि प्रहि मामा मामाहिंसीः ॐ नमो भगवते रुद्राय ॐ अरुं मुखाय नमः ॐ पूर्भवस्सुवः ॐ नमः शम्भवे च मयोभवे च नमः शङ्कराय च ॐ अरूम सुरसिमार्जालीयोरौ द्रेणानिकेन पाहि मा अग्नेऽपि ब्रुहि मा मामाहिंसीः ओम् नमो भगवते रुद्राय ॐ अरूम कण्ठाय नमः ॐ पूर्णवस्तुः ॐ नम शम्भवे च मयोभवे च नम शङ्कराय च च नम शिवाय च शिवतराय च ओम् हरुं सम्राणशिकृशा नूरौ द्रेणानिकेन पाहि मा अग्नेऽपि ब्रुहि मा ॐ नमो भगवते रुद्राय ॐ अलुं बाहुभ्यां नमः ॐ फूर्भ वस्तुवः ओं नम शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ओम् अलूं परिषद्योऽशिपवमानो रौद्रेणानिकेन पाहि माग्रेऽपि बृहि मामाहिंसीः मा ओम् नमो भगवते रुद्राय ॐ अलूम् ृदयाय नमः ओम् भूर्भवस्तुवः ओम् नम शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च शिवाय च शिवतराय च ॐ येम् प्रतक्वासि नभस्वान्रौ द्रेणानिकेन पाहि माग्नेऽपि बृहि मा मामाहुंसीः मा ओम् नमो भगवते रुद्राय ॐ येम् नाभ्यै नमः ओम् भूर्भवस्वः ओम नम शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ओम ऐम् असंवृष्टोऽसिहं यशोदोरौ द्रेणानिकेन पाहि मा अग्नेऽपि बृहि मा मामाहिंसीः ॐ नमो भगवते रुद्राय ओम ऐम् कठ्यै नमः ॐ ओम पूर्भवस्वः ओम् नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॐ ओम् प्रदधा ओम मा शिशुवर्योतिरौ त्रेणानिकेन पाहि माग्नेऽपि बृहि मा मा माहिंसीः ओम् नमो भगवते रुद्राय ॐ ॐ ऊरोभ्याम् नमः ॐ भूर्भवस्तुः ॐ नम शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॐ औं ब्रह्मज्योतिरशिशुमर्धामारौ त्रेणानीकेन पाहि मा अग्नेऽपि बृहि मा मा माहिंसीः ॐ नमो भगवते रुद्राय ॐ औं जानुभ्याम् नमः ॐ भूर्भवस्तुः ॐ नम शम्भवे चमयो भवे जनमः शङ्कराय चमयस्कराय जनमः शिवाय च शिवतराय च ॐ अम् अयोस्येकपाद्रौ द्रेणानिकेन पाहि माग्नेऽपि बृहि मा मामाहिंसीः मा, ओम् नमो भगवते रुद्राय ॐ अं जङ्घाभ्याम् नमः ओम् भूर्भुस्वः ओम् नम शम्भवे चमयो भवे जनम शङ्कराय चमयस्कराय जनमः शिवाय च शिवतराय च ओम् अहः अहिशिबुद्रियो रौद्रेणानीक पाने मिपुंसी ओम नमो भगवते रुद्रा ओं अह पादाभ्यास्तिगतसपापै प्रमुच्यूतेजिवती ततो भूत भूतप्रेतपिशाचब्रह्म राक्षस यक्षयमदूतशाकिनि ठाकिनी सर्पश्वापदवृश्चिगतस्करज्वराद्युपद्रवजोपघातात् सर्वे ज्वलन्तम् पश्यन्तु माम् सकुटुम्बम् आत्मरक्षा मनो ज्योतिर्जुषतामाज्यम् विच्छिन्नम् यज्ञगुम्स इमम् दधातु बृहस्पतिस्तनुतामिमम् नो विश्वे देवा ह्यवानयन्ताम् गुह्या जनमः अबोध्यग्निः सविधा जनानाम् प्रति धेनुमिवायतीमुषासम् यह्वायुवप्रभया भुचिहा नाप्रभानवशिस्रतेनाकवच्छा नाभ्यै नमः अग्निर्मूर्धा दिवःखकुत्पतिः पृथिव्या अयम् अपागुम्रेतागुंसि जिन्वति हृदया जनमः मूत्थानम् दिवो अरतिम् पृथिव्या वै विश्वानरभृताय जातमग्निम् कविगुम् सम्राजमतिथिम् जनानामासन्नापात्रम् जनयन्त जन देवाः कण्ठा जनमर्माणि ते वर्मभिश्चादया वि सोमस्त्वा राजा मुतेनाभिवस्ताम् उरोर्वरीयो वरिवस्ते अस्तु जयन्तुम् त्वामनुमतन्तु देवाः मुखा जनमः जातवेदा यदि वैश्वानरो यदि वा वैद्युतोऽषि शम्प्रजाम्भ्यो लोकं। लोकम् ऊर्जम् पुष्टिम् ददभ्यापभृत्स्वा शिरसे नमः ब्रह्मात्मन्वदसृजत तदकामयत समात्मनापद्येयेति आत्मन्नात्मन्नित्यामन्त्रयत तस्मै दशमगुम्हूतप्रत्यशृणोतु स दशहूतो भवतु दशहूतो भवैरामैषः तम् वाजेतम् दशहूतकुम्सन्तम् दश होतेत्याचक्षते परोक्षेण परोक्षप्रियाय व हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै सप्तमगुम्हूतप्रत्यशृणोतु स सप्तहूतो भवतु सप्तहूतो हवैनामैषः तम् वा एतगुम् सप्तहूतगुम् सन्तम् सप्त परोक्षेण परोक्षप्रिया युव हि तस्मै षष्ठगुंहूतप्रच्यशृणोतु स षड्ढूतो भवतु षड्ढूतो हवैना मैषः तं वाजेतघुं षड्ढूतगुंसन्तं षड्भूतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयतः तस्मै पञ्चमगुंहूतप्रच्यशृणोतु स पञ्चभूतो भवतु पञ्चभूतो हवैना तं वा येतं पञ्चहोतेत्याचक्षते परोक्षेण परोक्षप्रियाय बहि देवाः आत्मन्नात्मन्नित्यामन्त्रयता तस्मै चतुर्थकुं हूतप्रत्यशृणोतु स चतुर्हूतो भवतु चतुर्हूतो भवैना मैषा तं वा एतं चतुर्हूतगुंसन्तं चतुर्होतेत्याचक्षते परोक्षेण परोक्षप्रियायि बहि देवाः तमब्रवीत् त्वं वे त्वयेनाख्यातार इति तस्मान्मुखैनागुच्यतुर्होतार इत्याचक्षते तस्माच्छुश्रूषु पुत्राणाहृज्यतमः नेदि एवं वेद इति आत्मरक्षाकर्तव्य अथ शिवसङ्कल्पाः येनेदम् भूतम् भुवनम् भविष्यत्परिगृहीतममुते न सर्वम् येन यज्ञस्त्रायते सप्तमो ता तन्मे मनः शिवसङ्कल्पमस्तु येन कर्माणि प्रचलन्ति धीराजतो वाचा मनसाचारुयन्ति यत्संवितमनुसंयन्ति प्राणिनस्तन्मे मनः शिव सङ्कल्पमस्तु येन कर्माण्यपसो मनीषिणो यज्ञे कुर्वन्ति विदधे सुधीराः यदपूर्वम् यक्षमन्तः प्रजानाम् तन्मे मनसिव सङ्कल्पमस्तु यत् प्रज्ञानमुत चेतो धृतिश्च यद् ज्योतिरन्तरमृतम् प्रजासु यस्मान् ऋते किञ्चन कर्म क्रियते तन्मे मनसिव सङ्कल्पमस्तु सुषारथिरश्वानि वयम् मनुष्याहान्ये नीयते भीषुभिर्वाजन इव हृत्प्रतिष्ठम् यद चिरम् जविष्ठम् तन्मे मनसिव सङ्कल्पमस्तु यस्मिन् रुचः सामयजोगिम् श्री यस्मिन् प्रतिष्ठा रथनाभाविवाराः यस्मिद्गुश्चित्तकुम् सर्वभूतम् प्रजानाम् तन्मे मनः शिव सङ्कल्पमस्तु यदत्र षष्ठम् त्रिशतकम् सुवीरम् यज्ञस्य कुशिम् न पराभवाह्यम् दश पञ्च त्रिभुंशतम् यत्परम् च तन्मे मनः शिव सङ्कल्पमस्तु यज्जाग्रतो दूरमुदयतिदैवम् तत् सुप्तस्य तथैव इति दूरम् गमम् ज्योतिषाम् ज्योतिरेकम् तन्मे मनः शिव सङ्कल्पमस्तु येनेदम् जगतो बभूव देवापि महतो जातवेदाः तदेवाग्निस्तमसो ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमस्तु ये नद्यौ पृथिवीजान्तरिक्षं च जा ये पर्वताः प्रतिशोधिष्य ते श्रोत्रे चक्षुषिः सञ्जरन्तम् तन्मे मनः शिव सङ्कल्पमस्तु आचिञ्चाप्रमेयम् च व्यक्ता व्यक्तपरम् च यत् सूक्ष्माः सूक्ष्मतरम् ज्ञेयम् तन्मे मनः शिव सङ्कल्पमस्तु एका च दश शतम् च सहस्रम् चायुतम् च नीयुतम् च प्रयुतम् चाद्भुतम् च न्यद्भुतम् च चा समुद्रश्च मध्यम् चान्तश्च परार्थश्च तन्मे मनः शिव पञ्च पञ्च दश शतकम् च ते अग्निचित्यष्ट कास्तरीरम् तन्मे मनः शिव सङ्कल्पमस्तु वेदाहमेतम् पुरुषम् महान्तमादित्य वन्नम् तमः सप्परस्थात् यस्य यो निम् परिपश्यन्ति धीरास्तन्मे मनः शिव सङ्कल्पमस्तु यस्येदम् धीराः कवयो ब्रह्माणमेतम् त्वा प्रणत इन्दुम् स्थावरम् जङ्गमम् ज्यवराकाशम् तन्मे परात्परतरं चैव यत्पराच्चैव यत्परम् यत्परात् परतो ज्ञेयम् तन्मे मनः शिव सङ्कल्पमस्तु पराः परतरो ब्रह्म तत्पराः परतो हरिः तत्परात् परतो धीशस्तन्मे मनस्सिव सङ्कल्पमस्तु या वेदादिषु गायत्री सर्वं यापि महेश्वरी रुग्यजुस्सामाधर्वैश्च तन्मे मनः शिव सङ्कल्पमस्तु यो देवं महादेवं प्रणवम् परमेश्वरम् यः सर्वे सर्ववेदैश्च तन्मे मनः शिव प्रयत प्रणवोङ्कारम् प्रणवम् पुरुषोत्तमम् ओङ्कारम् प्रणवात्मानम् तन्मे मनः शिव सङ्कल्पमस्तु योऽसौ सर्वेषु वेदेषु पठ्यते ईश्वरः आकायो निर्गुणोऽ ह्यात्मा तन्मे मनः शिव सङ्कल्पमस्तु गोभिर्जुष्टम् धनेन ख्यायुषा प्रजया पशुभिः पुष्कराक्षम् तन्मे मनः शिव त्रयम् भगम् ययामिहे सुगन्धम् पुष्ट्यवर्धनम् उर्वारुकमिव बन्धना नृत्योर्मुक्ष्ये यवामृतात् तन्मे मनः शिवसङ्कल्पमस्तु कैलासशिखरे रम्ये शङ्करस्य शिवालये देवता हस्तत्र मोदन्ते तन्मे मनः शिव सङ्कल्पमस्तु विश्वतो मुखो विश्वतो हस्तभृत विश्वतस्मात् सम्बाहुभ्याम् नमति सम्पत् त्रयद्या जनयन् देवये कस्तन्मे मनः चतुरो वेदानधीयीतसर्वशाहस्रमयं इत विदुः इतिहासपुराणानां तन्मे मनस्शिवसङ्कल्पमस्तु मानो महान्तमुतमानो अर्भकं मा मानो नुभुक्षन्तमुतमानभुक्षितं मानोमधि पितरं मोतमातरं प्रियामानस्तनुवो रुद्ररीरिषस्तन्मे मनः शिवसङ्कल्पमस्तु मानस्तोकेतन ये मान आयुषमानो कोषुमानो अश्वेषुरीरिषः षम् कृष्णपिङ्गलम् ओधरेतं विरूपाक्षम् विश्वरूपाय वैनमो नमस्तन्मे मनसि वसङ्कल्पमस्तु कद् रुद्रा यचेतसे मेढुष्ठमायतं यशे वोचे वशन्तमगुं हृदे सर्व ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु तन्मे मनः शिव सङ्कल्पमस्तु ब्रह्म सुरुचो वेन आवह स बुद्धिया उपमा अस्य विष्टास्तयो निवसतश्चापि वस्तन्मे मनः शिव सङ्कल्पमस्तु यय जगतो बभूव य ईशे अस्य देवाय हंसा तन्मे मनसि सङ्कल्पमस्तु य आत्मदा बलदा यस्य विश्व उपासुते प्रसिषं यस्य देवाः यस्य छायामृतम् यस्य मृत्युः कस्मै देवाय हविषा विधेम तन्मे मनः शिव सङ्कल्पमस्तु गन्धद्वाराम् दुराधर्षाम् नित्यपुष्टाम् करिषिणीम् ईश्वरी सर्वभूतानाम् त्वा विहोपक्ष्मये श्रियम् तन्मे यो रुद्रो अग्नमु यो अप्सुयवोषधीषु यो रुद्रो विश्वाभुमना विवेश तस्मै रुद्राय नमो अस्तु तन्मे मनसि वसङ्कल्पमस्तु नमकम् चमकम् चैव पुरुष सोक्तम् जनित्य सः महादेवेन तत्तुल्यम् तन्मे मनः शिव सङ्कल्पमस्तु यदगुम् शिव ब्राह्मणाः ते परम् गमिष्यन्ति तन्मे मनः शिव सङ्कल्पमस्तु हृदयाय नमः सहस्रशीर्षा पुरुष सहस्राक्षसहस्रपाद स्वभूमिम् विश्वतो मृत्वा अच्च तिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वशेषानः यदन्नेनातिरोहति एतावानश्रमहिमा अतोर्जायामुपूरुषः पादोः श्विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपादोऽर्थ उदयत्पुरुषः पादोः श्येषाभवात्पुनः ततो विश्वं यक्रामतु साशनानशने अभि तस्माद्विराजायत विराजो अधिपूरुषः स जातो अतिरिच्यत पश्चाद्भुविमथो पुरः यत्पुरुषेण हविषाः देवा यज्ञमतन्वता वसन्तो अस्यासीदाद्यम् ग्रीष्म यद्मशरद्धविः सप्तास्यासन् उपरिधयः त्रिःसप्तसमिधकृताः देवाय यज्ञं तन्वानाः आबद्धन् पुरुषं पशुं तं यज्ञं बर्हिषि प्रोक्षन् पुरुषं जातमघृतः तेन देवाय जन्ता साध्यार्षयश्चये तस्मा यज्ञात्सर्वहुतः संहृतं वृषदाद्यं पशुगुस्तागुच्चक्रे वा यव्यान् आरण्यान् ग्राम्याश्चये तस्मा यज्ञात्सर्वहुतः रचः सामानिजज्ञिरे छन्दुसु जिरे तस्मा यजुस्त तस्माश्व अजाता एक भयाद गावो जग्रे तस्त अजा युषम कलिहा मुखम श्राहू का ओरो पादाच्य ब्राह्मणोश मुख्या बाहूराज यदश्य पद्भ्यागुम् सूद्रो अजायत चन्द्रमामनसो जातः चक्षुः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुर्जायत नाभ्य आसीदन्तरिक्षम् शीर्षोद्यौ समवर्तत पद्भ्याम् भूयिर्दिश्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु सर्वाणि रूपाणि विचित्यधीरः नामानि कृत्वाभिमदन्यदास्ते दाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रतिश्यतस्रः तमेवम् विद्वान् अमृत इह भवति नान्यप्पन्था अयनाय विज्यते यज्ञेन यज्ञमयजन्त ता देवाः तानि धर्माणि प्रथमान्यासन् ते ह्यनाकम् महिमानः यत्र पूर्वे साध्याः देवाः रुषसूक्तगुं शिरसे स्वाहा अभ्यःसम्भूतपृथिव्यैरसाच्च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदधत् रूपमेति तत्पुरुषस्य विश्वमायानमग्रेः वेदाहमेतम् पुरुषम् हान्तम् आदित्यवर्णम् तव सफरस्तात् तमेवम् गर्भे अन्तः अजायमानो तस्य धीराः परिजानन्ति मरीजीनां मरीचीनां पदमिच्छन्ति वेधसः यो देवेभ्य आतपति यो देवानां पुरोहितः पूर्वो यो, पुरो यो देवेभ्यो जातः नमो रुजाय रुजा ब्राह्मये रुचम् रुजा ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशेः ह्रीश्च लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अस्मिनौव्यात्तम् इष्टम् मनिषाण अमुम् मनिषाण सर्वम् मनिषाण उत्तरनारायणपुंसिखा एव षटु आशुशिष्यानो वृषभो न युद्मोघनाघनः सङ्क्रन्दनो निविषयेकवीरस्यतपुंसेन अजयत् साकमिन्द्रः सङ्क्रन्दनेनानि विषेण जिष्णुना युत्कारेण दुश्च सयिषु हस्ते स निषङ्गिभिर्वशी सग् स्रष्टा स इन्द्रो गणेन सगुम् सृष्टचित्सोमपा बाहुशर्ध्योर्वधन् वा प्रतिहिताः विरस्ताः बृहस्पते परिदीया रथेन रक्षोहामित्रागुम् अपबाधमानः प्रभञ्जन् सेनाः प्रभृणो युधा जयन्नस्माकमेध्य पिता रथानाम् गोत्रभिदम् गोविदम् वज्रबाहुम् जयन्त मज्म प्रभृणन् इमगुंस जात अनुवीर यध्वमिन्द्र पुंसखायोनुसगुं रभध्वम् बलविज्ञायस्तविरप्रवीरः सह अभिवीरो सत् वासहोजा जैत्रमिन्द्ररधमातिष्ठ गोवितु वीरस्य तमञ्जुरिन्द्रः दुश्चवनपृत नाशाख युध्योः इन्द्र आसाम् नेता बृहस्पतिर्दक्षिणा यज्ञः पुरयेतु सोमः देवसेनानामभिभञ्जतीनाम् यजयन्तीनाम् मरुतोऽयम् च अग्रेः इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदिथ्यानाम् मरुताहुशर्ध उग्रम् महामनसाम् भुवन शवानाम् घोषो देवानाम् जयतामुदस्थात् देवा अस्माकमिन्द्रमृतेषु ध्वजेष्वस्माकम् यायिषभस्ताजयन्तु अस्माकम् वीरावुत्तरे भवन्त्वस्मानुदेवा अवताहवेषु उद्धर्षयमघवन्नायुधान्ुत्सत्त्वनाम् मामकानाम् महागुंसि उद्भुत्रहङ् वाजिनाम् वाजिनान्वुद्रथानाम् जयता मे तु घोषः उपप्रेत जयिता नरः बाहवः इन्द्रो वशर्म यच्छत्वना यथा सथा आवसृष्टा परापतशरम् ये ब्रह्म सुगुंसिता गच्छामित्रान् प्रविशमैषाम् कञ्चनोच्छिषः मान्माणिते वर्मभिच्छादयामि स्वमस्त्वा राजामृते नापि वस्ताम् उरोर्वरी यो वरि वस्ते अस्तु जयन्तम् त्वामनुमदन्तु देवाः यत्र बाणाः सम्पतन्ति कुमाराभि इन्द्रो नस्तत्र वृत्रहाभिः शर्म यच्छतु नमो भगवते रुज्राय आशुशिशानोकवचाय हुँ प्रतिपूरुषमेककपालान्निर्वपत्येकमतिरिक्तम् यावन्तो गृह्या सुगम् वेषाय मेष्या अवाम्बरुद्रमदिमह्यपदेवम् त्रयम्बकम् यथा नश्रेयसः करत्यथा नोपश्य सखरत्यथा न पशुमतकरद्यथा नो व्यवसाययात् त्र्यम्बकम् युजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षे यपामृतात् एष ते रुद्रभागस्तञ्जुषश्वतेन वशेन परोमूयभतो दीह्यवतथन्वाप्नाकहस्तकृतिवासाः प्रतिपोरुषमेकता प्रजा रुद्रा निरवदेक जनिष्य प्रजा रुद्रा निरवदयन से एक कपालेक रुद्र निवदयते नाघार यदिघारे तो अंतरवचारिणव रुद्रम्लमुखे नीति ति रुद्र भाग देय इं दिशी एषा वै रुद्रस्य दिक् स्वायामेव दिशि रुद्रम् निर्वदयते रुद्रो वा अपशुकाय आहुत्यैना तिष्ठत असौ ते पशुरिति निर्दिशेद्यम् दुष्यात् यमेव द्वेष्टि तमस्मै पशुम् निर्दिशति यदि न द्विष्यात् आकुस्ते पशुरिति ब्रूयात् चतुष्पथे जुहोति एष वा अग्नीनाम् अग्निवत्येव जुहोति मध्यमेन पर्णेन जुहोति शृघ्येषा अथो खलु अन्तमेनैव होतव्यम् अन्तत एव रुद्रम् निरपतयते एष ते रुद्रभागः सह स्वस्राम्बिकयेत्याः शरद्वा अस्याम्बिकाश्वसाः तया वा एष हिनस्ति यगुं हिनस्ति त्वयैव गुंसह शमयति यावन्त एव ग्राम्याः पशवः तेभ्यो भेषजिम् करोति अवाम्बरुद्रमधिमहीत्याः आशिषमेवैतामाशाहस्ते त्रयम्बकम् यजामः इत्याः मृत्योर्मुक्षि यपामृतादि दिवा वै उत्किरन्ति भगः शलीप्सन्ते मूते कृत्वा सजन्ति यथा यते वशम् करोति तादृगेव एषते रुद्रभाग इत्याह निरवत्यै अप्रतिक्षमायन्ति अपप्रषिञ्चति रुद्रस्यान्तर्हित्यै प्रवाये ते यस्माल्लोकाच्च्यवन्ते ये त्रयम्बकैश्चरन्ति आदित्यं चरुम् पुनरेच्य निर्वपति इयं वा अदितिः अस्यामेव प्रतितिष्ठन्ति ॐ नमो भगवते रुद्राय प्रतिपूरुषं प्रतिपूरुषम् इति नेत्रत्रयायवंशटु स्वमग्ने रुद्रो असुरो महो दिवस्त्वगुम् श्रद्धो बारुतम् पृक्ष ईशुषे त्वम् वातैर् रुणैर्यासिष्यङ्गयस्त्वम् पूषा विध तपाशुनुत्वनाः आभो राजानमध्वरस्य रुद्रगुम् होतारम् सत्ययजगुम् रोदस्योः अग्निम् पुरातनयत्नो रचित्ताधिरण्यरूपमवसे कृणुध्वम् अग्निर्होता निषसादा यजीयानुपस्थे मातुः सुरभावुलोके युवा कविः पुरुनिष्ठः लतावा धत्ताकृष्टीरामुतमध्य इत्थः सा धीमकर्देववीतिम्नो अद्य यज्ञस्य जिह्वामभिदामगुह्याम् स आजुरागात्सुरभिर्मसानो भद्रामकर्देवहूतिम्नो अद्य आक्रन्ददग्निस्तनयन्निवद्यौ क्षामारेरिहद्वीरुधः समञ्जन् सजोज ज्ञानो विही मितो अक्षता रोदसी भानुना भात्यन्तः स्वे वसूनि पूर्वणिकहोतर्दोषावस्थोरेरिरे जिज्ञासः क्षामेव विश्वा भुवना यस्मिन् स पुंसौभगानिदतिरे पावके तूभ्यन्ता अङ्गिरस्थमविश्वा हस्तु क्षितयः पृथक् अग्ने कामाय येमिरे अश्याम कामा तम् सुवीरम् अश्यामवाजमभिभाजयन्तोऽश्याम ल्युम्नमजराजरन्ते श्रेष्ठम् यविष्ठभारताग्नेद्युमन्तमाभरा वसो पुरुस्पृहगुम् रयुम् सश्वितानस्तन्यतूरो जनस्था अजरेभिर्नानदद्भिर्यविष्टः यः पावकः पुरुतमः पुरूणि पृथून् यग्निरनुयाति भर्वन् आयुष्ठे विश्वतो ददतयमग्निर्वरेण्यः पुनस्ते प्राण आजिति परा यष्वगुं आयुर्दा अग्ने खविषो जुषाणो घृतप्रतीको घृतयो निरेधि घृतम् हेत्वा मधु च ऋगव्यम् पितेव पुत्रमभिरक्षतादिमम् तस्मै ते प्रतिहर्यते जातवेदो विचर्षणे अग्ने जनामि सुष्ठुतिम् दिवस्परिप्रथमम् जज्ञे अग्निरस्मद्वितीयम् परिजातवेदाः तृतीयमप्सुरुमणा अजस्रमिन्धान एवम् जरते स्वाधीः शुचि पापकन्दोने बृहद विरोजसेराहुता नो ुक्र्षमायुश्रिए रुचान अग्निमृत अभवदिर्दे नं जौरजनयत्रेता आया दिशे नृपत तेज आनक्षुचिषिक्त जौरफीके अग्न सर्धमन पद युवा स्वाधीय जनयच्त्च स तेजीयसामनसात्वोत उत शिक्षस्व पत्यश्च शिक्षोः अग्ने राजोऽनुतमश्च प्रभूतो भूयामते सुष्टुतयश्च वस्वः आग्ने सहम् तमाभरद्युम्नस्य प्रासहारयिम् विश्वायश्च ऋषणीरभ्यासा वाजेषु सा सह तु तमग्ने पृतनासहगुं अद्भुतो दातावाज स गोमतः उषान्नाय वशान्नाय सोमपृष्ठाय वेधसे सोमैर्विधेमाग्नये वद्माहिसूनो यस्य सद्वाचक्रे अग्निर्जनुषाज्माह्नम् स त्वम् न पूर्ज्य स न पूर्जम् धाराजे वजेर वृकेक्षेश्यन्तः अग्न आयोगुम् शिपव स वासुवोर्जमिषम् च नः आरे अस्मे वर्च सुवीर्यम् दधत्पोषकुं रयिं मयि अग्ने पावकरोचिषा मन्त्रया देवजिह्मया आदेवान्वक्षि यक्षि च सनः पावकदीदिवोऽग्ने देवागुम् इहावः उपयज्ञगुंहविश्चनः अग्निःशुचिं व्रततमस्तुचिर्भिप्रस्शुचिः कविः शुचिरोचत आहुतः उदग्ने सु यस्तव शुक्राभ्राजन्तयीरते तव ज्योतिगुश्चयः रुद्रो असुरो महो त्वगुंशध्वमारुतम् ईशिषे त्वं वातैररुणैर्यासि सङ्कयः त्वं पूषाशिनुत्मनाः देवा देवेषु श्रेयध्वम् प्रथमा द्वितीयेषु श्रेयध्वम् द्वितीयास्तृतीयेषु श्रेयध्वम् तृतीयाश्चतुर्थेषु श्रेयध्वम् चतुर्था पञ्चमेषु श्रेयध्वम् पञ्चमा षष्ठेषु श्रेयध्वम् षष्ठा सप्तमेषु श्रेयध्वम् सप्तमा अष्टमेषु श्रेयध्वम् अष्टमा नवमेषु श्रेयध्वम् नवमा दशमेषु श्रियध्वम् दशमा एकादशेषु श्रेयध्वम् एकादश द्वादशेषु श्रियध्वम् द्वादशास्त्रयोदशेषु श्रियध्वम् त्रयोदशश्चतुर्दशेषु श्रियध्वम् चतुर्दश पञ्चदशेषु श्रेयध्वम् पञ्चदश षोडशेषु श्रेयध्वम् षोडश सप्तदशेषु श्रेयध्वम् सप्तदश अष्टादशेषु श्रियध्वम् अष्टादश एकान्न व्युपुंशेषु श्रेयध्वम् एकान विगुंशा विगुंसेषु श्रेयध्वम् विगुंशा एकविगुंसेषु श्रेयध्वम् एकविगुंशा द्वाविगुंसेषु श्रियध्वम् द्वाविगुंशा त्रयो विपुंसेषु श्रेयध्वम् त्रयो विगुंशाश्चतुर्विगुंसेषु श्रेयध्वम् चतुर्विगुंशा पञ्चविगुंसेषु श्रेयध्वम् पञ्चविगुंसा षड् विपुंसेषु श्रियध्वम् षड्विगुंशा सप्त विगुंसेषु श्रेयध्वम् सप्त अष्टा विपुंसेषु श्रेध्वम् अष्टाविपुंशा एकान्न त्रिपुंसेषु श्रियध्वम् एकान्न त्रिपुंशास्त्रिपुंसेषु श्रियध्वम् त्रिगुंशा एकत्रिपुंसेषु श्रियध्वम् एकत्रिगुंशा द्वाः त्रिपुंसेषु श्रुयध्वम् द्वात्रिगुंशास्त्रयस्त्रिपुंशेषु श्रुयुध्वम् देवाः स्त्रिरेकादशास्त्रिस्त्रयस्त्रिगुंशाः उत्तरे भवता उत्तरवर्त्मानमुत्तरसत्मानः यत्काम इदम् जुहोमि तन्मे समुर्झताम् वयघुश्यामपतयोरयीणाम् भूर्भुवस्वस्वाहा ओम् नमो भगवते रुद्राय त्वमग्रे त्वमग्रे शतरुद्रीयमित्यस्त्राय भटु भूर्भुवस्वरोमिति दिग्बन्धः अथ पञ्चाङ्गगुंसगृजपेत् सद्यो जातम् प्रभज्यामि सद्यो नमो नमः भवे भवे भव सुमाम् भवोद्भवा जनमः वामदेवायनमो ज्येष्ठाय नमः श्रेष्ठा यनमो, यनमो।, यनमो। रुद्रा जनमक्काला जनमक्कालविकरणा जनमो बलविकरणा जनमो बला जनमो बलप्रमथना जनमः सर्वभूततमना जनमो नमः जनमः अघोरेभ्यो थघोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्यः सर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नोरुद्रप्रचोदयात् ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवोम् इति महान्यासपारायणम् सम्पूर्णम् सहना भवतु सहनौ सुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहैः ओम् दिश्याम् दिश्याम् दिः